अथ्वेदे पञ्चमाष्टकेऽष्टमोऽध्यायः ओरादिहे वयत्सत्यऋणप्सुरसिष्वितत् पिभानुम् विश्वधातनत् ब्रुवद्दस्रामनोजुदारथे एनपृथुपादसा स चेथे अश्वि नोषसम् युवाभ्या अम्बाजिनीव सोऽप्रति स्तो मा अदृक्षत वाचम् दूतो यथोहिषे पुरुप्रियाण ऊतये पुरुमन्द्रापुरोवसो स्तुषे कण्वा आसो अश्विना मम् हिष्ठा वा दसा तमेषयम् ताशुभस्पती दन्ता आरादाशुषो गृहम् तासु देवाय दाशुषे सुमेधामवितारिणीम् कृतैर्गव्योतिमुक्षतम् आनस्तो ममुपद्रवत्तोऽयम् श्येनेभिराशुभिः या तमश्वे एभिरश्विना येभिस्रः परावतो ओदिपो विश्वानिरोचना त्रीन् रक्तो उत नो गोमतीर्ष उत सातेर हविदा विपथः सातये एसितम् आ ोह्मश्वापतीशाः वार्नाशुभस्पते दस्रा हिरण्यवर्तने पिबतम् सौम्यम् मधु अस्मभ्यम् वाजिनी वसो भगवद्भ्यश्च सप्रथाः छर्दिर्यन्तमदाभ्यम् निश ब्रह्म जनाय्याविष्टन्तो जमागतम् मोष्वा अन्याङ्गुपा रतम् अस्य पिबतमश्विना जुवम्मदस्य चारुणः मध्वो अस्मे आवहतम् रयिम् शतवन्तम् सहस्रिणम् वरुक्षुम् विश्वसाहायसम् वरुत्रादिवान्नरा विह्वयन्ते मनीषिणाः वागद्भिरश्विनागतम् जनाः सो रिक्तवर्षिषो हविष्पन्तो युवाम् हवन्ते अश्विना अस्माकमद्यवामयं स्तो बोबाहिष्ठो अन्तमः युवाभ्याम्भोत्वश्विना यो हवाम् मधुरो धृतिराहितो रथचर्षणे ततः पिबतमश्विना तेन नो वाजिनीव सोपश्वे एतोकायशङ्गवे वहतम्बीवरीरिषाः उत नो दिव्या इष उत सिन्धोऽग्रहर्विदा अपद्वारे वर्षथः कदा वान्तोग्र्योभिधत्समुद्रे जहितो नरा यद्वाम्रथोऽभिष्पतात् युवम् कण्ढायना सत्याभिरिप्ताय ह्ये शश्वतोतेर्दशस्य सः ताभिरायातमूतिभिर्नव्यसेभिः सुषस्तिभिः यद्वाम् वृषण्वसू हुभे यथा चित्कण्मावतम् प्रियमेतमुपस्तुतम् अत्रिम् शिञ्जारमश्विना यथोतकृत्ये धनेम् शृङ्गोश्वगस्त्यम् यथा वाजेषु सोभरिम् एतावद्वाम् वृषण्वसू अतो अश्विना गृणन्तः सुम्नमीमहे रथम् हिरण्यबन्धुरम् हिरण्याभीषुमश्विना आहिस्थाथोदिभिःशम् हिरण्ययीवाम्रभिदिशाक्षो हिरण्ययाः उभाचक्रा हिरण्ययाः येन नोवादिनेव सोपरावतश्चिदागतम् उपेमाम् सुष्ठुतिम् मम आपहेथे परागात् पूर्वे रश्नन्तावश्विना इशो दासे ऐरमर्त्या आ नो आद्युम्नैराश्रवोभिरारायातमश्विना पुरुश्चन्द्राना सत्या एह वा अम्बृषिरप्स भोपयो वहन्तु पर्णिनाः अच्छास्वध्वरञ्जनम् कथम् भावनुगायसंय इषावर्तते सः न हिरण्यदेथे नवत्पाणिभिरश्वैः जीजवनानासत्या युवम् मृगञ्जा आगृवाम् संस्वदथो वा वृषण्मसो तानः पृङ्क्तमिषारयिम् तामे अश्विनासनीनाम् विद्या तन्नवानाम् यथा चिच्चैद्यः कशुशतमष्ट्रानाम् यो मे हिरण्यसन्दृशो दशराज्ञो अमम् हर अधस्पदा इत्यैद्यस्य कृष्टयश्चर्मन्ना अभितो जनाः माकिरेनापसाघाद्येने मेयन्ति चेदयाः अन्यो नेत्सूरिरोहते भूरिलावत्तरो जनाः महान्द्रोय ओजसा पद्यन्यो ओवृष्टिमाङ्गिव स्तोमैर्वत्सस्य वावृधे प्रयावृतस्य विप्रतः प्रयद्भरन्त वह्नयः विप्रा आवृतस्य वाहसा कण्वा इन्द्रयदक्रत स्तोमैर्यज्ञस्य साधनम् जामि ब्रुवत आयुधम् रमस्य मन्यवे विशो विश्वानमन्तकृष्टयाः समुद्राये वसिन्धवः ोजस्तदस्य तित्विष उभे यत्समवर्तयत् इन्द्रश्चर्मे वरोदसे विजिद्वृत्रस्य लोधतो वज्रेण शतपर्वणा शिरोऽपिभेदवृष्णिना इमा अभिप्रणो नुमो विपावग्रेषु धीतजाः अग्ने शोचिन्नदिद्युताः गुहासतीपत्मना प्रयच्छोचन्नधीतयाः कण्वा हृतस्य भाहया प्रतमिन्दरशीमहिरलिङ्गो मन्दमश्विनम् प्रब्रह्म पूर्वचित्तये अहमिद्ध्यपितुष्परिमेधामृतस्य जग्रभा अहम् सूर्य इवाजनि अहम् रत्नेन मन्मनागिरः शुम्भामि कण्भवर् येनेन्द्रः शुष्ममिद्दे ये त्वामिन्द्रष्टुवुरुषयो ये चतुष्टुभुः ममेद्बर्धस्व सुष्ठुतः यलस्य मन्युरध्वनेत्रिवृत्रम् बशो रुजम् अपःसमुद्रमैरयत् निषुष्ण इन्द्रधर्णसिम् वज्रम् जघण्ठदस्य वि वृषाह्युग्रशृण्विषे नद्याव इन्द्रमोजसारान्तरिक्षाणि वज्रिणम् न यस्त इन्द्रमहिरपस्तभूयमा न इतम् पद्याः सुशिष्णसः य इमे रोदसी मही समीची समजग्रभीत तमोभिरिन्द्रतङ्गुहः य इन्द्रयतयस्वा भृगभोजे चतुष्टुभुः ममे दुग्रश्रुधे इमास्त इन्द्रकृष्णयो कृतम् दुहत आशिरम् येनामृतस्य पिद्युषीः या परिधर्मे वसूर्यम् तामिच्छवशस्पदे कण्वाः उक्थेन वावृधो त्वाम् सुतास इन्दवः तवेदिन्द्रप्रणेदिषुत प्रशस्तिरद्रिवः जज्ञो वितन्तसाय्याः आन इन्द्रमहेमिषम्पुरन्नदर्शयो मतीम् उत प्रजाम् सुवीर्यम् उत त्यताश्व अग्रे एविक्षु प्रदीदयत अभिं व्रजन्नतत् निषेशूर उपाकचक्षसम् यदिन्द्रमिळयासिनः यदङ्गतविषीयसमिन्द्रप्रराजशिक्षितेः महाम् अपार ओजसा तन्वाहविष्मतेर्विष उपब्रुवत ऊतयेज्रयसमिन्दुभिः उप परे किरीडाम् सङ्गते च नदीनाम् धिजा विप्रो अजायत अतः समुद्रमुद्वतश्चिकित्त्वा अपपश्यति यतो विपान एजति कादिप्रत्नस्य देतसो ज्योतिःपश्यन्ति वा सरम् परो यदिध्यते दिवा कण्वा स इन्द्रते मतिम् विश्वे एव वर्धन्ति इमाम् म इन्द्रसुस्तुलिम् जुषस्वप्रसुमामव उत प्रवर्द्धया मतिम् उत ब्रह्म हण्याभजन्तुभ्यम् प्रवृद्धवज्रिवः विप्राः अतक्ष्मजीवसे अभिकण्वा अनूषदा पो न प्रवता यतेः इन्द्रम् वनन्मते मतिः इन्द्रमुक्तानि वा वृथः समुद्रमिव सिन्धवः अनुत्तमन्युमदम् आ नो परावतो हरिभ्याम् हर्यताभ्याम् इममिन्द्रस्तम् विव त्वा विद्वृत्रहन्तमजनाः सो रिक्तवर्षिषः हवन्ते वाजसातये अनु त्वा उभे चक्रन्नवर्त्येतशम् अनुसुमानास इन्दवः मन्दस्वासु स्वर्णर उतेन्द्रहर्यवति मते ृधान उपद्य विवृषा वज्र्यलोरवीत वृत्रहासो ओमपातमः ऊर्वजा अस्ये कईशा न ओजसा इन्द्रचोष्कूयसेवसो अस्माकम् त्वासुताम् उपवीतपृष्ठा अभिप्रयाः शतम् वहन्तु हरयः इमाम् सुपूर्व्याम् द्विषम् मधो ऋर्षुरस्य पिप्युषे अण्वा उक्थेन वावृधो इन्द्रविद्यमहीनां मेधे वृणीतमर्त्याः इन्द्रम् स निश्युतये अरुवाञ्चन्त्वा पुरुष्टुत प्रियमेतस्तुता हरे सोमपेयायवक्षतः शतमहन्तिरिन्दिरे सहस्रम् वरशा वाददे राधांसियाद्वानाम् त्रीणि शतान्यर्वताम् सहस्रादशगोनाम् ददुष्पज्रायसाम्नेः उदानट्ककुहोदिभमुष्ट्राम् चतुर्युचोदत् श्रवसायाद्वन्द्वनम् प्रयद्वस्त्रिष्टुभमिषम् मरुतो विप्रो अक्षरत् विपर्वतेषु राजथा यदङ्गतविषय वोयामम् शुभ्रा अतिथम् विपर्वता अहासत उदे रयन्त वायुभिर्वाश्रासः पृश्निमातरः दुःखन्त पित्युषे विषम् वपन्ति मरुतोमिहं प्रवेपयन्ति पर्वतान् यद्यामयि जान्ति वायुभिः नियद्यामायवो गिरिर्निसिन्ध गोविधर्मणे महे शुष्माजये भिरे युष्मा उनक्तमूतये युष्मान्दिवाहवामहे युष्मान् प्रयत्यध्वरे उदृत्ये अरुणप्सवश्चित्रायामे अभिरीलते वाश्रा अधिष्णुना आदिवः सृजन्ति लक्ष्मिमोजसा पन्थाम् सूर्या आजातवे ते भानुभिर्पितस्थिरे इमाम् मे एव रुतो गिरमिमम् सोममृभुक्षणः मे एव म् श्रीकृष्णयो वज्रिणे मधो उत्सङ्गवन्धमुद्रिणम् मरुतो यद्धवो दिवस्सुम् नायन्तो हवामरे आदू न उपगन्दन योऽयम् हिष्ठा सुदानवो रुद्रारुभुक्षणोदमे उत प्रचे एतसो मदे आ यत्तामरुतो दिवः अधे एव यद्गिरीणायामम् शुभ्रा अजिध्वम् सुवानैर्मन्दध्व इन्दुभिः एतावदश्चितेषाम् सुम्नम् भिक्षेतमर्त्याः अदा आभ्यस्य तोमैः पृश्निमातरः येनावदुर्वशयदु येन कण्वन् धनस्पृतम् राजेषु तस्य धीमहि इमा उवः सुदानवो कृतम् न पिप्युशीरिषाः मर्धान् काण्स्य मन्मभिः क्व नूनम् सुदानवो मदथा वृत्तमर्हिषः ब्रह्मा को ृतस्य जिन्वता समुत्ये महतेरपः सङ्ोणे समसूर्यम् संवज्रम् पर्वशोदुः विवृत्रम् पर्वशो युर्विपर्वतामराजिनाः चक्राणावृष्टिपोंस्यम् अनुत्रितस्य युध्यतः शुष्ममावन्नुत क्रतुम् अन्विन्द्रम् रत्रतोर्ये विद्युद्धस्ता अभिद्यवशिप्राः शीर्षन्हिरण्यजेः शुभ्राव्यञ्जतश्रिये उशनायत्परावत उक्ष्णोरन्ध्रमयातन द्यौर्नचक्रतद्भिया आनो अमखस्य दावनेष्वैरहिरण्यपाणिभिः देवा आस उपकन्तन यदे एषाम् मृषतीरसेरहतिरोहितः यान्ति शुभ्रारिणम् नपः सुषोमेणावत्यार्जीके पस्यावति यजर्नचक्रयानराः कदा गच्छा समरुत इत्था विप्रमवमानम् वार्गीकेऽभिर्नाथमानम् कद्धनूनम् कथप्रियो यदिन्द्रमजहातन को वः स क्षिप्हते स हो षणो वज्रहस्तैः कण्वासो अग्निम् मरुद्भिः स्तुषे हिरण्यवाचिभिः ओषु कृष्णः पर्वताश्चिन्नियेमिरे आक्ष्णया वा नो वहन्त्यन्तरिक्षेण पततः धाता रस्तुपते वजाः अग्निर्हिजानि पूर्यन्दो न सूरो अर्चिषाः ते भानुभिर्वितस्थिरे आ नो विश्वा अभिरुधिरश्विनागच्छतम् युवम् दस्राहिरण्यवर्तनेऽपिबतम् सोम्यम् मधु आदो नैयातमश्विना रथे न सूर्यत्वचा भुजे हिरण्यपेतसा कविगम्भीरचेतसा आयातम् नुषस्पर्यान्तरिक्षात् सुवृत्तिभिः पिबाथो अश्विनामधु कण्वानाम् सवले सुतम् आनो यातम् दिवस्पर्यान्तरिक्षादथ प्रिया पुत्रः नो आयातमुपश्रुत्यश्विना सोमपीतये स्वाहा स्तोमस्य वर्धना प्रकमेधीतिभिर्नरा यच्चिद्धिवाहम् पुरृषयो जुहोरेवसे नरा आयातमश्विनागतमुपेमाम् सुष्टुतिम् मम दिवश्चिद्रोचनादध्यानो ओगन्तम् स्पर्विदाेभिर्वत्सप्रचेतसा स्तोभिर्हवनश्रुता इमन्ये पर्यासते स्मत् स्तोमेभिरश्मिना पुत्रः कण्वस्य भावृशिर्घेर्भिर्वत्सो अभिवृथत् आवाम् विप्र इया वसेत् स्तोमेभिरश्मिना अरिप्रावृत्र हन्त माता नो भूतम् मयोभुवा आयद्वाञ्जोषणा रथमतिष्ठद्वाजिनीवसु विश्वा अतः सहस्रनिर्णया रथेनायातमश्विना वत्सो वाम् मधुमद्वचोशंसेत् काव्यः कविः पुरुमन्द्रापुरोवसो मनोतरालयीणा स्तोमम् मे अश्विनाभिमममभिवन्येरनुषाता आ नो विश्वान्यश्विना धत्तम् राधांस्य ह्रया कृतन्नरुत् आवतो मानोरेरथतम् निदे यन्नासत्यापरावधि यद्वास्थो अध्यम्बरे अतः सहस्रनिर्णिजारथेनायातमश्विना यो वान्नासत्या विसर्गेर्भिरुमत्सो अवेवृधत् तस्मै सहस्रनिर्णिजमिषन् धत्तम् घृतश्च्युतम् प्रास्पा ऊर्जम् घृतश्चुतमश्विना यच्छतम् युवम् यो वाम् सुम्नाय दृष्टवद्वसूयाद्दानुनस्पति आ नोऽगन्तम् दिशादसेमम् स्तोमम् पुरुभुजा कृतम् नः सुश्रियो न रेमादातमभिष्टये आवाम् विश्वाभिरोतिभिः प्रियमेधा अहोषत राजन्तामध्वरा नामश्रिराजामहूतिषु आलो ओगन्तम् मयोभुवाश्विलाशम्भुवा आयुवम् यो वाम् विपन्यो चेतिभिर्ग्यैर्भिर्वत्सो अबे एवृथत् याभिः कण्वम् मेधा अतिशियाभिर्वशन्दशौरजम् याभिर्गो शर्यमावतन्ताभिर्लो वतन्दरा याभिर्नरात्र शरस्युमावतम् कृत्ये धरेः अस्माश्विनाप्रावतम् वाजसातये प्रवां स्तोमासुवृत्तयोगिरो वर्धन्तश्विना पुरुत्रावृत्रहन्तमाता नो भूतम् पुरस्पृहा त्रीणि पदान्यश्विनो राभिः सा गुहापरः कवे ऋतस्य पद्मभिरनुवाग्जीवेभ्यः परि ोदमश्विना युवम् वत्सस्य गन्तमवसे प्रास्मै यच्छतमभृगम् पृथच्छर्दिर्युयुतञ्या अराहतयः यदन्तरिक्षे यद्दिवि यत्पञ्चमानुषाम् अनुदत्तमश्विना एवान्दम् सा हंस्यश्विनाभिप्रासः परिमा वृषो एवेत्काण्वस्य बोधतम् अयम् वाहम् घर्मो अश्विना स्तोमे एन अयम् सोमो मधुमान्वाजिमेव सूयेन वृत्रम् चिकेतथः यदप्सु यद्वनस्पतौ यदोषधेषु पुरुदम् ससा कृतम् तेन माविष्टमश्विना यन्नाः सत्यापुरण्यथो यद्वादेवभिषज्यथाः अयम् वाहम् वत्सो मतिभिर्न विन्दते आ नूनमश्विनो रः स्तोमञ्चिकेत वामयाः आसोमम् मधुमन्तमम् घर्मम् सिञ्चादथर्वणि आ नूनम् रघुवर्तनिं रथम् अश्विना आवां स्तोमाः इमे मन भो न चुच्य वीरद यदद्य वा नासत्योक्थैराचुच्युभीमहि यद्वाणीभिरश्विनेवेत्काण्वस्य बोधतम् यद्वा अङ्गक्षे वा अङ्गुत यद्यष्परिशर्यद्वा अङ्गीर्घतमाजुहाव प्रथेयद्दा अम् वैन्यः सादनेष्वेदतो अश्विना चेतयेथा परस्पा भूतम् जगत्पा उत न तदिन्द्रेण सरथै याथो अश्विना यद्वा आवायुनाभवधः समोदसा यदा आदित्येभिररुहुभिः स्रजोषसा यद्वा विष्णो अर्विक्रमणे हृतिष्ठथः यदद्याश्विना आवहम् हुवे जमाय सातये यत्पृत्सुतुम् वडे सहस्तच्छच्छ्रेष्ठमश्विनौरवाः आ नूनैया आतमश्विनेमाहव्यानि बाम्हिता इमे सोमा आसो अधिकुर्वशे यदा आभिने कुण्डे एषु वामथ यन्ना आसत्यापराके अर्वाके अस्ति भेषदम् तेन नूनम् विमदाय प्रचेतसा छर्दिर्वत्साय यच्छतम् अभुक्सुप्रदेव्या साकम् वाचाहमश्विनोः या आवद्देव्या मतिम् प्रभो अधयोषो अश्विनाप्रदे ऋसो नृते महि प्रयज्ञहोतरानुषप्रमदायश्रवो अबृहत् यदुशोयासि भानुनासंशोर्येण रोचसे आहायमश्विनो रथो वर्तिर्याति नृपायम् यदा पीतासो अंश न दुःख्रूहि यद्वा वाणेरनो ओषतप्रदे एभजन्तो वा अश्विना प्रद्युम्नाय प्रशवसे परदृषाह्या आयशम्बणे प्रदक्षा आयप्रचेतसा यन्नो नन्देभिरश्विना पितुर्यो ना आ निषेदथः यद्वा आसुम्नेभिरुक्थ्या यत्स्थो दीर्घप्रसद्मनि यद्वादोरो ओचने दिवः यद्वा आ समुद्रे अध्याकृते गृहेत आयातमश्विना यद्वा आ यज्ञम् मनवे सम्मिक्षसुरेवेत्काण्स्य बोधतम् बृहस्पतिम् विश्वाम् देवा अहम् हुव इन्द्राविष्णोः अश्विना आवाशुभेषसान्वा अश्विना आहुवे सुतं ससा गृहे कृता ययोरस्तिप्रणः सख्यम् देवेश्वध्याप्यम् ययोरधिप्रयज्ञा असूरे सन्ति सूरयाः आयज्ञस्याध्वरस्य प्रदे एतसाश्वथाभिर्यापिपदः सोम्यम् मधु यदद्याश्विनावपाग्यत्प्राक् सो वा आदिनीवसो यद्रुह्यम् यनविदुर्वशे यदौ ओह्वे वामथमागतम् यदन्तरिक्षेप तथः पुरुभुजा यदास्वभिषो रया तमश्विनानेत पासी देव आवर्तेनेमसी प्रशस्ो विदेषु सहंत अग्नेरथेरध्वरा सत्मस्मदप्द्वुजोधिजात वेद अदे एव्नेराती अन्त्यजित्सन्तमः यज्ञम् अर्तस्य रिपोः नोपवेशि जातवेदः मर्ता अमर्त्यस्य दे भोरिनाम मनामहे विप्रा आसो जातवेदसः विप्रम् विप्रासो वसे देवम् मर्ता आस ऊतये अग्निङ्गीर्भिर्हवामहे आ ते अग्नेत्वाङ्गामया गिरा वृत्ता हि सदृङ्गश्रिविशो विश्वा नु प्रभुः समत्सुत्वा हवामहे समत्स्वग्निमव सेवा जयन्तो हवामहे वाजेषु चित्रराधसम् रत्नो हि कमेज्यो अध्वरेषु सनाच्च होतानम्यश्च सत्से स्वाञ्च आग्ने तन्वम् विप्रयस्वास्लभ्यम् च सौभगमायजस्व <laughs> इति पञ्चमाष्टकेष्टमोऽध्यायः <laughs>